गर्गसंहिता खण्डम् त्रिगिरिराजखण्डम् अध्यायम् नयन् गिरिराजखण्डनवमोऽध्यायः वृन्दावने गोवर्धनावतारकथा श्रीबहुलाश्व उवाच अहो गोवर्धनसाक्षाद्गिरिराजो हरिप्रियः तत्समानं न तीर्थं हि विद्यते भूतले दिवी कदा बभूव श्रीकृष्णवक्षसोऽयं गिरीश्वरः यदद्वदमः बुद्धित्वं साक्षाद्धरिमानसः श्रीनारद उवाच गो लोकोत्पत्तिवृत्तान्तं शृणुराजन्महामदे चतुष्पदार्थदं नृणामाजलीलासमन्वितम् अनादिरात्मा पुरुषो निर्गुणप्रकृते परः परिपूर्णतमसाक्षात् कृष्णो भगवान् प्रभुः प्रत्यग्धाम स्वयं ज्योतिरममाणो निरन्तरम् यत्र काल कलयदामीश्वरो धाममानिना राजन्न प्रभावेन्माया न महांश्च गुणकुतः न विसन्धि क्वचिद्राजन् मनश्चितो मदिर्ह्यहम् स्वधाम्नि ब्रह्मसागारमिच्छया व्यरचीकरात् प्रथमं च विसश्वेदो बृहद्वपुः तदुत्सङ्गे महालोको गोलोको लोकवन्दितः यं प्राप्यभक्तिसंयुक्त पुनरावरुतदेन असङ्ग्यब्रह्माण्डपदेर्गोलोपाधिपदे प्रभोः पुनः पादाब्जसम्भूदा गङ्गात्रिपथगमिनी पुनर्वामां स तस्तस्य कृष्णा भूत्सरिताम् वरा रे श्रीरासमण्डलं दिव्यम् हेमरत्नसमन्वितं नानाशृङ्गारपडलं गुल्फाभ्यां श्रीहरे प्रभो सभा प्राङ्गणवीधीभिर्मण्डपैपरिवेषितः वसन्तमाधुर्यधरकूजत्कोगिलसङ्कुलः मयूरैषट्पदैर्व्याप्तसरोभिपरिसेवितः जादो निकुञ्जो जङ्घाभ्याम् श्रीकृष्णस्य महात्मनः वृन्दावनम् च जानुभ्याम् राजन् सर्ववनोत्तमम् लीला दूरुभ्याम् परमात्मनः कडिदेशात् स्वर्णभूमिर्दिव्यरत्नखचित् उदरे उदरेमराजिश्च माधव्यो विस्तृता लताः नानापक्षिगणैर्व्यात्ता ध्वनभ्रमरभूषिताः सुपुष्पफलभारैश्च नदा सत्कुलजा इव श्रीनाभिपङ्कजात्तस्य पङ्कजानि सहस्रशख सरस्सुहरिलोकस्य तानि रेजुरिदस्तदः त्रिबलिप्रान्तदो वायुर्मन्दगाम्यदिशीतलः जतृदेशाक्षुभा जादा मधुराद्वारका भुजाभ्याम् श्रीहरिर्जादा श्रीदामाद्यष्टपार्षदाः नन्दाश्च मणि बन्दाभ्या मुपनन्दाकराग्रदा श्रीकृष्ण बाहुमूलाभ्याम् सर्वे वै वृषभानवः कृष्णरोम समुद्भूता सर्वे गोपगणा नृपा श्रीकृष्णमनसो बुद्धिर्यवस गुल्मानि बभूवो मयि धीरेश्वर तद्वा मां सात्समुद्भूतं गौरं तेजस्पुरत्प्रभं लीला श्रीर्भूश्च विरजा तस्माज्जादारे प्रियाः लीलावधिप्रिया तस्य तां राधां दुविधुपरे श्रीराधाया भुजाभ्यां दुविशा काललिदासगि सहचर्यस्तदा गोप्यो राधारो मोद्भवान् नृभा एवं गोलोकरजनां चकारमधुसूदनः विधाय सर्वनिजलोकमिद्धं श्रीराधया तत्र रराजराजन् असङ्ख्यलोकाण्डपधिपरात्मा परपरेश परिपूर्णदेवाः तत्रैकदा सुन्दररासमण्डले स्फुर क्वणन्नूपुरशब्दसङ्कुले सुच्छत्रमुक्ताबलदाम जावृदस्रवत् बृहद् बिन्दुविराजिताङ्गणे श्रीमालदीनां सुविधानजालधस्वदस्रवत् सन् मकरन्दगन्धिते मृदङ्गतालध्वनिवेणुनादिदे सुकण्ठगीतादिमनोहरे परे श्रीसुन्दरीरासरसे मनोरमे मध्यस्थितम् गोडिमनोजमोहनम् जगाद राधापदिमो जया गिरा कृत्वा कटाक्षम् रसदानकौशलम् राधोवाच यभिरासे प्रसन्नोऽस्मि मम प्रेम्णा जगत्पदे तदाकं प्रार्थनां त्वां तु करोमि मनसि स्थितां श्रीभगवानुवाच इच्छंवरय वा मोरु यादे मनसि वरुतते न देयं यदि यद्वस्तु प्रेम्णा दास्यामि तत्प्रिये राधोवाच वृन्दावने दिव्यनि कुञ्चपार्श्वे कृष्णातडे रासरसाययोग्यम् रखस्थलम् त्वम् कुरु तान्मनोज्ञम् मनोरथोऽयं मम देवदेव श्रीनारद उवाच तथास्तु चोक्त्वा भगवान् रखो योग्यम् विचिन्तयन् स्वनेत्रपङ्कजाभ्याम् दुहृदयम् सन्ददर्शः तदैव कृष्णकृतयाद्गोपीव्यूहस्य पश्यतः निर्गतं सजलं तेजोऽनुरागस्येव चाङ्गुरम् पदितं रासभूमौ तद्ववृधे पर्वताकृधि रत्नधादुमयं दिव्यं सुनिर्चरदरीवृतं कदम्ब बहुलाशोकलताजालमनोहरम् मन्दारकुन्द वृन्ताण्ढ्यम् सुपक्षिगणसङ्कुलम् क्षणमात्रेण वैदेहलक्षयोजन विस्तृतम् शतकोटिर्योजनानाम् लम्बितम् शेषवत् पुनः ऊर्ध्वम् समुन्नतम् जातम् पञ्चाशत् कोटियोजनम् करीन्द्रवस्थितम् शश्वत् कॉडिजन दीर्घांगई शृंगा शतक स्फुद उच्च कईस्वर्णकलशादिवथिला गोवर्धनाख्यम तच्चा शतशृगं तदापरेंूतम तो तद विवर्धित मनसोत्सुक कोलाफले तथा जादेको लोक भय विह्वले वीक्ष्योद्धा हरिसाक्षा ढाशु तथा डत किं वर्धसे भो प्रच्छिन्नम् लोकमाच्छाद्य तिष्ठसि किं वा न चैदे वसितुम् पच्चान्तिमकरोद्धरीः संवीक्ष्य प्रसन्ना भगवत्प्रिया तस्मिन् रखस्तले राजन्द्रराजहरिणा सह सोऽयम् गिरिवरसाक्षात् श्रीकृष्णेन प्रणोदितः सर्वतीर्थमयश्यामो खनश्यामसुरप्रियः भारतात् पश्चिमदिशि शाल्मलद्वीपमध्यतः गोवर्धनो जन्मलेभे पत्न्याम् द्रोणाचलस्य च पुलस्त्येन समानीतो भारते व्रजमण्डले वैदेह तस्यागमनं मया तुभ्यं पुरोदितं यथा पुरा वर्धितुमुत्सुकोऽयं तथापिधानं पविता भुवो वा विचिन्त्यशापमुनिना परेशो द्रोणात्मजाये विदधौ क्षयार्थम् इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे गिरिराजोत्पत्तिवर्णनं नाम नवमोऽध्यायः ओम् अध्यायम् टेन् गोवर्धनशिलामाहात्म्यम् श्रीनारद उवाच अत्रैवोदाहरन्दी ममितिहा अत्रै सम्पुराधनं यस्य श्रवणमात्रेण महापापं प्रणश्यति विजयो ब्रह्मण कश्चिद् गौतमीतीरवासकृत आययौ स्वहृणं नेतुं मधुरां पापनाशिनीम् कृत्वा कार्यं गृहं गच्छन् गोवर्धनतडीं गदः वर्दुलं तत्र पाषाणं चैकं जग्राहमैथिल शनैः शनैर्वनोद्देशे निर्गतो व्रजमण्डलाद अग्रे ददर्श चायान्तं राक्षसं घोररूपिणं हृदये च मुखं यस्य त्रयः भुजाश्च षट् हस्तत्रयं शूलोष्ठो नासा सप्त हस्ता ललज्जिह्वा कण्टका भास्तनूरुहाः अरुणे अक्षिणी दीर्घे दन्तावप्राभयङ्कराः राक्षसो घुर्घुरं शब्दं कृत्वा चापि बुभुक्षितः अययौ सम्मुखे राजन् ब्राह्मणस्य सिधस्य च गिरिराजोद्भवेन पाषाणेन जघानदम् गिरिराजशिलास्पर्शात्यकृवासौ राक्षसीं तनुं पद्मपत्रविशालाक्षस्याम सुन्दरविग्रहः वनमालिपीतवासा मुकुडी कुण्डलान्विदः वंशीधरो इवापरः भूत्वा कृताञ्जलिर्विप्रम् प्रणनाम धन्यस्त्वम् ब्राह्मण श्रेष्ठपरत्राणपरायणः त्वया विमोचितोऽं वै राक्षसत्वान्महामदे पाषाणस्पर्शमात्रेण कल्याण मे बभूवः न कोऽपि मां मोचयितुं समर्थो हि त्वया विना श्रीब्राह्मण उवाच विस्मितस्तव वाक्यसं क्षमः पाषाण्णस्पर्शनफलं न जाने वद सुव्रत सिद्ध उवाच गिरिराजोहरेरूपं श्रीमान् गोवर्धनो गिरिः तस्य दर्शनमात्रेण नरो यादि कृतार्थतां गन्धमादनयात्रायां यद्फलं लभते नरः तस्मात् कोटिगुणं पुण्यं गिरिराजस्य दर्शने पञ्चवर्षसहस्राणि केदारे यत्तभक् फल पच गोवर्धने विप्रक्षण न लदे नर मलय्रव सुर्ण भारदान भी जलम तस्कोटिगुणं पुण्यम गिरीराजे मसीक पर्वे मंगल प्रस्थे यो दध्यादे मदिणा सयादि विष्णुसारूप्यम युख पापशत तत्पदं हि नरो यादिगिरिराजस्य दर्शनाद गिरिराजसमं पुण्यमन्यतीर्थं न विद्यते वृषभाद्रौ कूडकाद्रौ कोलकाद्रौ तथा नरः सुवर्णशृङ्गयुक्तानां गवां कोडीर्ददादि यः महापुण्यं लभेत्सोऽपि विप्रान् सम्पूज्य यत्नतः तस्माल्लक्षगुणं पुण्यं गिरौ गोवर्धने द्विज ऋष्यमोकस्य सह्यस्य तथा देवगिरे पुनः यात्रायां लभते पुण्यं समस्ताया भुवफलं गिरिराजस्य यात्रायां तस्मा कोडिगुणं फलं गिरिराजसमं तीर्थं न भूतं न भविष्यति श्रीशैले दशवर्षाणि कुण्डे विद्याधरे नरः स्नानं करोति सुहृदि शतयत्नफलं लभेद गोवर्धने पुच्छकुण्डे दिनैकं स्नानकृन्नरः कोडियज्ञफलं साक्षात् पुण्यमे दिनसंशयः वेङ्कडाद्रौ वारिधारे महेन्द्रे विन्ध्यपर्वदे यज्ञं कृत्वा ह्यश्वमेधं नरो नागपतिर्भवेद गोवर्धनेऽस्मिन्मिन्यो गोवर्धनेऽस्मिन्न्यो यज्ञं कृत्वा दत्त्वा सुदक्षिणां नागे पदं संविधाय स विष्णो पदमाव्रजेत चित्रकूटे पयस्विन्यां दिने पारियात्रे तृतीयायां वैशाखस्य द्विजोत्तम कुकुराद्रौ च पूर्णायां नीलान्ध्रौ द्वादशी दिने इन्द्रकीले च सप्तम्यां स्नानं दानं तपः क्रियाः तत्सर्वं कोटिगुणितं भवती इत्थं हि भारते गोवर्धने दो तत्सर्वमनन्तं चायते मायापुर्यां तु कुम्भके पुष्करे पुष्यनक्षत्रे कुरुक्षेत्रे रविग्रहे चन्द्रग्रहे दुःखस्यां वैफाल्गुणेनैमिषे तथा एकादश्यां शूकरे च कार्तिक्यां गुणमुक्तिदे जन्माष्टम्यां मधोपुर्यां काण्डवे द्वादशीदिने कार्तिक्यां पूर्णिमायां दुवडेश्वरमहावडे मकरार्के प्रयागे दुबर्हिष्मत्यां किं वै धृतौ अयोध्यासरयुतीरे श्रीरामनवमी दिने एवं शिव चतुर्दश्यं वै जनाथ शुभे वने तथा दरिशे सोमवारे गङ्गासागरसङ्गमे दशम्यां सेदुबन्धे जश्रीरङ्गे सप्तमी दिने येषुदानन्दपस्नानम् जपोद्विजार्चनम् तत्सर्वम् गौडिगुणितम् भवदी सद्विजोत्तम तत्तुल्यम् पुण्यमाप्नोति गिरौ गोवर्धने वरे गोविन्दकुण्डे विश्यदे यत्स्नाधिकृष्णमानसः कृष्णमानसः कृष्णसारूप्यम् मयिथिलेन्द्रनसंशयः अश्वमेधसहस्राणि राजसूयशतानि च मानसी गङ्गया तुल्यं न भवन्त्यत्र नो त्वया विप्रकृतं साक्षात् दर्शनम् स्पर्शनं च तदस्नानं न त्वत्तोऽप्यधिगो भुवि न मन्यसे चन्मां पश्यमः पादगिनं परं गोवर्धनशिलास्पर्शात् कृष्ण सारूप्यतां गतम् इति श्रीगर्गसंहितायाम् श्री नारद बहुलाश्वसंवादे गिरिराजमहात्म्यं नाम दशमोऽध्यायः इलेवन् गिरिराजप्रभाववर्णने सिद्धमोक्षवर्णनम् श्रीनारद उवाच इति श्रुत्वा सिद्धवाक्यम् ब्राह्मणो विस्मयम् गतः पुनपप्रचतम् राजन् गिरिराजप्रभाव पुराजन्मनि कस्त्वम् भोस्त्वया किम् कलुषम् कृतम् वद महाभागत्वं साक्षात् दिव्यदर्शनः सिद्ध उवाच पुराजन्मनि वैश्योऽसन्दनि वैश्यसुदो महान् आबाल्याद्युतनिरदो विडगोष्ठीविशारदः वैश्यारदकुमार्गोऽहम् मदिरामदविह्वलः मात्रापित्रा भार्यया बिभर्सितोऽहं सदा द्विजा एकदाधुमया विप्रपितरौ गरदानदः मारितौ च तदा भार्या खड्गेन पथि मारिदा गृहीत्वा तद्धनम् सर्वम् वेश्यया सहिदखलः दक्षिणांशम् च गतवान् दस्यु कर्मादिनिर्दयः ु मया वेश्या निखिक्षिप्ता ह्यन्तकूपके दस्युना हि मया पाश्य मारिता शदस्यो नराः धनलोभेन भो विप्र ब्रह्म कर्त्या शदम् कृतम् हस्त्र क्षत्रहत्या वैश्यभत्या शूद्र हत्या सहस्रशः ये कदा मां समाने दुमृगान् कन्दुं गदम् सर्पो दशत्पदा स्पृष्ठो दुष्टं मां निधनं गतम् सन्ताड्यमुद्गरैर्घोरैर्यमधुदा भयङ्कराः बद्ध्वा मां नरकं निन्युर्महापादगिनं फलं मन्वन्तरं तु पतितकुम्भिपाके महाखले कल्पैकं तप्तसूर्मौ महादुःखं गदकलः चतुरशीतिलक्षाणां नरकाणां पृथक् प्रधक वर्षं वर्षं निपतितो निर्गतोऽहं यमेच्छया ततस्तु भारते वर्षे प्राप्तोऽहं कर्मवासनां दशवारं सूकरोहं व्याक्रोहं शतजन्मसु उष्ट्रोऽहम् जन्मशतकम् मखिषशतजन्मसु सर्पोऽहम् जन्मसहस्रम् आदो दुष्टमानवैः एवम् वर्षायुतान्तेदु निर्जले विपिने द्विज राक्षसस्थे दृश्यो जादो विकरालो महाखलः कस्य शूद्रस्य देहम् वै समारुह्यम् व्रजम् गतः वृन्दावनस्य निकडे यमुना निकटाक्षुभाद समुद्धिदा यष्टि हस्ता श्यामला कृष्णपार्षदाः तैस्ताडितो दो दर्शितोऽकम् व्रजभूमौ पलायिदः बुभुक्षिदो बहुदिनैस्त्वाम् खादितुमिहा गदः तावत् त्वया ताडितोऽकम् हिरिराजाश्मना श्रीकृष्ण कृपया साक्षात् कल्याणम् मे बभूवः श्रीनारद उवाच एवम् प्रवदतस्तस्य गोलोपाचमहारथः सहस्रादित्यसङ्काशो हयायुधसमन्वितः सहस्र चक्रध्वनि दृल्लक्षपार्षदमण्डितः मञ्जीरकिङ्गिणिलो मनोहरतरो नृप पश्यतस्तस्य विप्रस्य तमानेदुं समागतः तमागतं रथं दिव्यं नेमधुर्विप्रनिर्जरौ तदः सिद्धो तदः समारुह्य रथं ससिद्धो विरञ्जयन् मैथिलमण्डलं श्रीकृष्णलोकं प्रययौ परात्परम् निकुञ्चलीला ललितं मनोहरम् विप्रोऽपि तस्मात् पुनरागतो गिरिं गोवर्धनं सर्व गिरीन्द्रदैवतं प्रदक्षिणीकृत्य पुनः प्रणम्यतं ययघृकं मयिधिलकप्रभाविद इदं मया दे कथितम् श्रीगिरिराजखण्डं श्रुत्वा जनपाप्यापि न प्रचण्डम् स्वप्ने विपश्येद्यममुग्रदण्डं यशृणोति गिरिराजयशस्यं गोपराजनवकेलिरहस्यं देवराज इव श्रोत्रसमेधि नन्दराज इव शान्तिममुत्र इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे गिरिराजप्रभावप्रस्ताववर्णने सिद्धमोक्ष नाम एकादशोऽध्यायः इति श्रीगिरिराजखण्डसमाप्तः ओ